मुद्गलपुराणं खण्डं 6, विकटचरितम् अध्यायं 25, फैव् ब्रह्मकमण्डलुतीर्थचरितं श्रीगणेशाय नमः देवेशावूचुः कथं देवैश्च मुनिभिः स्तुता विप्रमहानदी ब्रह्मणोऽर्धं तदेवाभिस्तोत्रम् वद सुखप्रदं भृषुण्ड्युवच नानातीर्थबलेनैव ब्रह्माणं ते सुरर्षयः शुद्धं कर्तुं समर्था न यदापुरा यदा पुरा सर्वे विचार्यैव तुरीयं तीर्थमुत्तमं स्तोदुं करपुडा समारेभुः सुस्तोत्रकं देवर्षय ऊचुः सर्वादिभूतं त्रिगुणेषु संस्थं तीर्थेषु यत्सर्वविकारहीनं तीर्थं तुरीयं च नमामहे तत्तीर्थात्मकं पापविनाश्यदक्षम् गङ्गादिनध्यप्रभवाय तश्च सर्वान्तरस्थं स्थितमात्मरूपं नादात्मकं रूपमधो विधाय तच्चालकं यत्तु नमामहेतद् पुराणगीतं विधिपापनाशं कमण्डलुस्थं परमप्रमेयम् अपारतीर्थेषु तदात्मभावं भविष्यदे देहधरं नमामहा नाथो विधाताज च महात्मन पापेन युक्तश्च तथा स्थितश्चेत् विश्वं परं नाशमुपैष्यति त्वं दयाकरातः गङ्गास्वरूपाय नमो नमस्ते ब्रह्मात्मजारूपधराय तुभ्यं तुभ्यं प्रयागाय च नार्मदाय कालिन्दिकास्थाय नमो नमो वै कृष्णास्वरूपाय कगुत्मदीस्त यद्देवनाद्यै च वेणीस्वरूपाय च पुष्कराय तापी प्रभासाय सर्वतीर्था। गोदावरी गोदावरीरूपधराय तुभ्यं क्षिप्रास्तसिन्धुस्तमहीस्वरूप कावेरिकास्थं सरयूस्वरूपं पूर्णे नमस्तेस्तु कमण्डलुस्थम् सार्धत्रिकोटीप्रवरस्तपाय तीर्थेश्वरायैव नमो नमस्ते अनन्ततीर्थप्रवराय नित्यं क्षेत्रे मयूरेदु समास्थिताय वाराम्बदिस्थाय सरोवराय वापीस्तकूपाय नमो नमस्ते यद्यज्जलं भानुकनस्थरूपं तत्रस्तकायैव नमो नमस्ते त्वया तदं सर्वमिदं विभाधि चराचरस्थं च जलं परेष धारयास्मान रक्षस्व सन्दर्शयते स्वरूपं भृश्युण्ड्युवाच एवं संस्तुवदां तेषाम् पुरस्तेजोमयं जलं प्रादुर्बभूव तद्दृष्ट्वा प्रणेमुः ससुरर्षयः तानुवाचमहातीर्थं हर्षयुक्तेन चेतसा वरं वृणुद देवेश मुनयस्तं ददाम्यहं भवत्कृतमिदं पुण्यं स्तोत्रं मे प्रीतिवर्धनम् भविष्यदि न सन्देहो भोक्ति प्रदायगं पठदे शृण्वदे नित्यं मयि स्नानफलप्रदं सर्वाकनाशनं सद्यो भविष्यति विशेषतः सर्वतीर्थवच श्रुत्वा हर्षयोक्दात्सुरर्षयः जगुः प्रणम्य देवेशाप्रबद्धकरसम्पुडाः देवर्षय ऊचुः प्रसन्नं चेन्महातीर्थ तदापिदा पितामहं परं शुद्धं कुरु तथा तस्य कमण्डलौ स्थितिं स्थिरां सर्वतीर्थं च तेनाम तथा ब्रह्मकमण्डलुः भवदुत्वत्प्रसादेन वर एववृधः परः तथेदितानुवाचैव याचितम् तीर्थमुत्तमम् चकार देवविप्रैर्यत्तत्सर्वम् कथितं मया देवेशावुचुः श्रुतं सर्वं विशेषेण सर्वसंशयनाशनं तथापि नश्च कृप्यामः परम् पीत्वा कथामृतम् माहात्म्यं कथितम् विप्र तत्र सिद्धिम् महाद्भुताम् अलभन्के पुरा योगिन्वदतेषां चरित्रकम् भृशुण्ड्युवाच उदाकल्पे द्विजः कश्चिद्भरद्वाजकुलोद्भवः मूर्खो बभूव देवेशा विद्या सन्ध्यादिवर्जितः तं गृह्य पितरौ तस्य स्थितं ब्रह्मकमण्डलौ ब्रह्माणं ययुतुः प्रीत्या नदी मूलविराजितं स्नात्वा नदी जले तत्र पूजया मासुरादराद विधिम् कमण्डलुस्थाने बभूवुर्भक्तिसंयुताः पुत्रस्तयोः सुबुद्ध्या वै युक्तो बभूव वेदादीन वेदादीन्कण्ठगान् देव अवदत्प्रेमसंयुदः ततो हर्षयुतौ तस्य पितरौ गृह्यतं सुतम् स्वस्थानं जग्मदुःप्रीत्या मुक्तिमन्दे प्रलेभिरे एवं नानाजनास्तत्र ज्ञानदो ज्ञानदोऽपि वा स्नानेन दर्शनेनैव ब्रह्मणः सिद्धिमाप्नुवन् अधान्यत्कथयिष्यामि क्षत्रियो रविवंशजः सुरधो मालवे राजा बभूव परवीरः स्वराज्यं धर्मसंयुक्तश्चकारसचिवैर्युधः बहुकाले गदे तत्र विधर्भाधिपतिर्ययौ दिग्जयार्थं ततस्तेन युयुधे बलसंयुधः पराजिदो विदर्भस्य राज्ञा राजापपालः तदो यत्नं समास्थाय ह्यन्यराजसमन्वितः सङ्ग्राममगरोत्खोरं पुनः पराजिदो भवद भूपालो ब्राह्मणान् पृष्ट्वा मयूरे चागदो भवद मध्यमेश्वरतीर्थे स शिवं पुपूजः तं नमस्कृत्य सेनाभिः संयुधो युयुधे पुनः भूपः जित्य वैदर्भं स्वराज्यं प्राप तत्क्षणाद अन्तेमुक्तिं जगामैव स्नानमाहात्म्यकारणाद् एवं तत्र ययुःसिद्धिं ज्ञानदो ज्ञानदो जनाः अन्यच्च शृणुदप्राज्ञाश्चरितं पुण्यदं परं द्विजो गौतमवंशे भूत्स्वधर्माचारसंयुधः विद्याज्ञानादिसंयुक्तो न यस्योऽप्यलभत्कदा दिक्षादिक्षुप्रयत्नेनाभवत् कर्मसु तत्परः ब्राह्मणास्तत्कृतं कर्मदृष्ट्वा सविधि वैदिकं। दोषयुक्तं विशेषेण ददृश्युः पापगौरवाद तदोदिखेदसंयुक्तो जगाम सर्वतीर्थिकाम् अन्ते विचार्य तस्यां सस्नानं चकारभक्तिदः ऋषिकेश्यं प्रपूज्यैव नमस्कृत्य गृहं ययौ तथकर्मकृतं तेन ददृशुसविधिद्विजः यद्यत्तेन कृतं देवा यशोयुक्तं बभूवः अन्दे मुक्तिं ययौसोऽपि तीर्थसेवनपुण्यदः ज्ञानतो ज्ञानतस्तत्र ययुःसिद्धिं विशेषदः मया वक्तुं न शक्येत केनापि देवसत्तमाः आर्धान्यच्चरितम् देवाशृणुध्वम् भावसंयुताः दण्डकारण्यदेशैकश्चाण्डालः पापकारकः वने गत्वा द्विजातींश्च मारयामास नित्यदा परस्त्रियंस ठेन च एवं नानाविधं पापं चकारविषयप्रियः एकदा धनसंयुक्तं वणिजं स ददर्शः तमनुप्रयययौ दुष्टशस्त्रपाणिर्जिखांसया तत्र मार्गे महेशानाब्रह्मकमण्डलूद्भवा महानदीं स चाण्डालो ददर्शसन्निधौ गतः जलस्पर्शादिकं तत्र नचकार चकार सुदुर्मदिः ततो योजनमात्रेण जखान वणिजं कलह द्रव्यं तस्य प्रगृह्यैव स्वगृहं पुनरागमद एवं कृत्वा ततःकाले ममारनीचयोजिनः यामास्तं गृह्य सन्ताड्य ययुः संयमिनीं पुरीं यमस्तान् प्रत्युवाचेदं वचनं धर्मलक्षणं महापापी भडानूनमयं तदभिमुच्यताम् सर्वतीर्थस्य दूदेशा दर्शनम् त्वभवत्पुरा वणिजं हन्धुकामस्य पापनाशकरं महद त्यज्यदा मानुषे देहेषु नरेण विचक्षणाः शुभाशुभं तत्रकृत्वा कृत्वा गमिष्यदि पुनः सकैवर्तो भवत्तत्र बङ्गाले देवसत्तमाहा एवं दर्शनमात्रेणेहकृतं दुरिदम् गतम् अन्यद्यज्जलबिन्दोश्च स्पर्शजं कथयाम्यहम् चरितं तस्य सर्वज्ञाशृणुध्वं सिद्धिदम् परम् व्याध कश्चिद्वने संस्तो बभूवे तत्र देशजः ब्रह्महत्यादिकं पापं चकार नित्यमादराद ददर्शद्रव्यसंयुक्तं दुष्टधीरेकदा नरं खड्गमुद्यम्य निःकोशम् तं हन्तुं धाविदो भवद पपालमानवो भेदः पृष्ठे व्याधस्तथागमद कमण्डल्युद्भवा गङ्गा प्राप्ता दैववशेनः तामुल्लङ्घ्य पपालासौ सोऽपि खड्गयुतस्तथा पपाददैवेनोल्लङ्घ्य धीरे दुरात्मवान् स तत्र जलबिन्दूनां स्पशर्युक्तो बभूवः नरो दूरं गदसोऽपि निःश्वस्य स्वगृहं ययौ एवं पापसमाचारमृतं काले सुदुर्मतिम् व्याधं तं गृह्यदेवेश यमदूदा यमं ययुः तं दृष्ट्वा धर्म राजस्तानुवाचप्रेमसंयुधः अयं शुद्धो महाभागात् सर्वपापविवर्जितः कमण्डलोद्भवतीरे पपाद धावनाकुलः तत्र तस्या जलस्पर्शो बभूवेच्छास्य दर्शनं दर्शनेनेखजं पापं गदं सर्वं लयं किल अनेकजन्मचं पापं तो यस्य गदं ततः परं कृतं यादनादं मदं यमः तथापि नैव योग्योऽयं यादनायां विशेषदः ब्रह्मकमण्डलोर्यस्य दर्शनाधिगमञ्चसा भवेत्तस्य भडानेदं यादनाजं भयं भवेद काश्मीरे स बभूवापि ब्राह्मणो वेदपारगः एवं नानाजनास्तस्यां पापहीना बभूविरे अधेदिहासकं वक्ष्ये पुराकल्पभवं परं शूद्र कश्चित् बभूवापि बङ्गदेशे महेश्वराः श्यामो नाम महापापी शिष्णोदरपरायणः चौर्यकर्मपरो चा। चा। नित्यं नगरेषु वनेषु च बभ्रामशस्त्रसंयुक्तो मारयामास नित्यदा जनान्नाविधांश्चैव मध्यमांसपरो भवत स कदाचिद्वने संस्थो ददर्श वनिगुत्तमान् द्रव्ययुक्तांस्तदो दुष्टो मार्गसंस्थो बभूवतैः के ययोर्दण्डकारण्ये सोऽपि तत्रोष्णकामयोगेन जलहीनाश्च बभ्रमुः तृषायुक्ताः समाया दास्त ब्रह्मकमण्डलोः तस्यां जलं पपुः सर्वे पुनर्ग्रामं समाययुः निशी सुप्ताश्च चौरेण हदा मृत्युं देवेंद्र देवेन्द्रनगरे सर्वे येयुः पुण्यप्रभावदः जलपानेन देवेशा किल ब्रह्मकमण्डलोः इन्द्रपुर्यां निवासन्ते चक्रिरेवणिगुत्तमाः ततःकाले मृतं चौरं गृहीतुं तं यमस्य च दूदा ययुर्यमं गृह्य दृष्ट्वा देवो ब्रवीद्यमः धर्म उवाच अयं शूद्रो महापापी तथापि पुण्यवानभूत सर्वतीर्थमयीं दृष्ट्वा दुष्टकार्यवशात् जलपानं कृतं तस्यास्तात् स्पर्शो जलस्य च बभूव त्रिविधम् पुण्यम् तेषां वक्ष्यामि कारणम् इह जन्म कृतम् पापम् दर्शनेन लयम् गतम् कमण्डलूद्भवयास्तु स्पर्शेनानेकजन्मजम् पानेनेन्द्रपदप्राप्तिसमम् पुण्यं बभूवः बाह्यान्तः पापहीनश्च पुण्ययुगतोऽयमुच्यते अदयेनं प्रगृह्यत्वं महेन्द्रं दूदसत्तम प्रापय तत्पुरे संस्थो भोगान् भोक्ष्यति निश्चिदम् पुनः पदिष्यति प्राज्ञः पृथिव्यां दूतस्तथा चकारैव प्रणनाम यमं पुनः नाना नानानरा देवा ययुत्सिद्धिं विशेषदः तन्न शक्यं कथयितुं न भवति शतवर्षदः अन्यद्वक् कथयिष्यामि चेदिहा शम्पुरा भवं सङ्क्षेपेण महाभागा स्नानसिद्धिप्रकाशकम् धनप्रिय इति ख्यातो बङ्गाले कारुकोऽ भवत पापनिष्टः सदा पापं चकार दुर्मदिर्मुदा द्रव्यार्थं विषदानेन हदौ मादापिता स्वकौ प्रणम्यब्राह्मणादींश्च जखानविषयो गतः साधुभावप्रदर्शी स सा, बाह्यन्तस्तु दुरात्मवान तेन मोहयुधा सर्वे तदधीना बभूविरे तदो बहौ गते काले राज्ञाज्ञादं दुरात्मनः कर्म तं गृह्य तस्यैव द्रव्यं नीदं समग्रकं स्वदेशात्तं बहिः कृत्य राजा धर्मपरायणः पालयामासलोकान् सदा नित्या स्वदेशकान् ततोऽयं दण्डकारण्ये पुत्रधारैर्जगामः तत्रैव रोजयामास वा सार्धं ग्राममुत्तमं तादृशीं वृत्तिमास्थाय पुनः पापं चकारः एकदा द्रव्यसंयुक्तं वणिजं स ददर्शः अनुतं विषसंयुक्तो जगामदुष्टधीकलः साधुलक्षणसंयुक्तो लोभनाय वणिक्षुदम् मार्गे महानदी प्राप्ता सर्वतीर्थमयी परा तस्यां स्नानं चकारासौ वणिजेन समन्वितः प्रगच्छन्तं ततो मार्गे द्विदिये दिवसे कलह। विषेणामोह्य वणिजं मारयामास तत्क्षणाद वणिक्षस्नानपुण्येन शुक्लगत्या महेश्वराः कमण्डलोर्महामोक्षं लेभे क्रमेण निश्चितं धनप्रियो ममारैव कालेन स्वगृहे पि मोक्षं महादेवा लेभे स्नानप्रभावदः अधुनान्यत्प्रवक्ष्यामि चरित्रं च कमण्डलोः स्मरणेन महेशानामहासिद्धिप्रदायकम् गुर्जरे वैश्यझः कश्चिद्बभूवे धर्मनामकः स्वधर्मनिरदो नित्यं चकारकर्मचादराद तेन स्कान्तभवं तत्र माहात्म्यं संश्रुतं परं कमण्डलुप्रभावेण युक्तं स्वयं सुविस्मितः मनसा धारयामास धन्येयं सरितां मैया ला दे तदा मे सफल जनु धर्म निहेश तोपी सामयाद क्षत्रि मग तेनापि संश्रुतं नाम ब्रह्मकमण्डलूद्भवं प्रादरुद्धायस्वस्थानं जगामक्षत्रियः कलः ततो बहौ गते धर्मसंज्ञो ममारः स्वर्गं गत्वा स विविधान् बुभुजे भोगकान् परान् पुनश्च ब्राह्मणसोऽपि बभूवातृकुलोद्भवः शिवदत्त इति ख्यादत्सर्वतीर्थनदीतडे स्वधर्मनिरधो विप्रो नमुमोचनदीतडं तत्र स्नानादिकं सर्वं जलकार्यं चकारः पूर्व पुण्यबलेनैवोत्तमतीर्थस्य सेवनाद् योगी बभूव तत्रासौ ममारतु तडे स्थितः ब्रह्मणि ब्रह्मभूतः स बभूवे देवसप्तमाः एवं दूरस्थितस्यापि स्मरणेन गतिप्रदा येन श्रुतं सर्वतीर्थस्य देवपाः क्षत्रियः पापकर्मा स चकारपापमुल्बणं मृदं तं यमदूताः सङ्गृह्य सन्ताड्यभानुजं प्रणम्य नरके दुष्टं चिक्षिपुश्च तदाज्ञया पुनः स्वानो बभूवा विक्षत्रियः पापकारकः बभ्रामदण्डकारण्य आजगाममहानदीं तत्र कीटादिभिस्वा नो मक्षिकाभिप्रपीडितः स्नानं चक्रे महानद्यां पूर्वसंस्कारयो गतः ममारतेन पुण्येन मोक्षं लेभेन संशयः सकृन्नाम्न श्रुतस्यैव पुण्येनेदम् कृतं महद धन्यास्ता विरुधो वल्यस्तृणानि वृक्षकादयः ब्रह्मकमण्डलोऽस्थीरे नान्यत्र राज्यसंयुधः यस्यास्थीरे मृदो जन्धुक्शुक्लगत्या गमिष्यति ब्रह्म राजा मृदोऽन्यत्र जन्मयुक्तो भविष्यति एवं सर्वत्र देवेश ब्रह्म कमण्डलूद्भवा शुभदा पूर्वगा प्रोक्ता मयूरेश परायणा चतुर्मुखे मध्यमेश्ये हृषिकेश्ये विशेषदा सर्वत्र दुर्लभादेवादीनां त्रिषु कमण्डलुः कोटितीर्थानि मूले स्यास्थितानि मध्यमे तथा अन्ते कोटिश्च सर्वत्र तीरे कोढ्यर्थमञ्जसा सङ्क्षेपेण मया तस्याश्चरितं कथितं परम् श्रवणात् पठनाद्देवाः सर्वपापहरं भवेद ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते ब्रह्म कमण्डलुतीर्थचरिदं नाम पञ्चविंशतितमोऽध्यायः ओम्